गणेशपुराणम् उपासनाखण्डम् अध्यायम् सिक्स्टीन् राजोवाच श्रुत्वा कथां गणेशस्य हर्षश्चेदसि जायते पुनश्च वदविप्रर्षे न तप्यामि कथामृतम् अन्तर्हिदे भगवति गणेशे परमात्मनि कथं विनिर्म मे सृष्टिं ब्रह्मा तद्वर्णय प्रभो यच्चाग्रे कथयमासव्यासायाख्यानकं विधिः तदहं विस्तरेणैव श्रोतुमिच्छामि सन्मुने भृगुरुवाच सिद्धक्षत्रस्य माहात्म्यं व्यासाय कथयत्प्रभुः आनुपूर्व्येण तत्तेहं कथयिष्ये सृजच्च यद सब्रह्मा निर्ममे पूर्वं मनसा सप्तपुत्रकान् आहतान् सृष्टिसाहाय्यं सृजध्वं स्वस्वबुद्धितः ते तु तद्वचनं श्रुत्वा तपस्ये कृतनिश्चयाः तपस्तप्त्वा सुविपुलम् परं ब्रह्मसमागताः तदोन्यान् कल्पयामास सप्तपुत्रान् प्रजापतिः तेऽत्यन्तज्ञानसम्पन्ना न चकृसृष्टिमुत्तमां मत्तः समारेभे शनकादीन् मुखतो ब्राह्मणानग्निमसृजत्कमलासनः बाहुरुपादोन्यां स्त्रीन् वर्णाश्चन्द्रमसंह्रदः चक्षुभ्यां चरविं श्रोत्रान् मारुदं प्राणमेव च अन्तरिक्षं तथा नाभे शिरसो दिवमेव च भूमिं पद्भ्यां दिश्रोत्रा धन्याल्लोकानकल्पयद अन्यदुच्चावचं विश्वं स्थावरं जङ्गमं च समुद्रान् सरिदशैलां तृणगुल्महीरुहान् तथ कदिपया हस्सु गतेषु मुनिसत्तमाः निद्रितस्य महाविष्णोः श्रोत्रा जादौ महासुरौ मधुकैढवनामानौ विख्यादो भुवनत्रये दंष्ट्राकरालवदनौ पिङ्गाक्षौ दीर्घनासिकौ महाकायौ महासारावत्युच्चौ पर्वताविवर्षामुदिरशब्दौ तौ गर्जन्तौ भृशगर्वित्तौ वचोभिर्बहुभिर्दुष्टोऽधिक्कारं तस्य चक्रदुः विप्रान् देवान् ऋषीन् साधून् शास्त्राणि च निनिन्ददुः तयोः शब्देन धरणी शकम्भे शेष एव च उद्विग्नभाषित्सकलं ब्रह्माण्डम् स्वनस्थयोः ततस्थौ क्रोधरक्ताक्षौ कं तं खादितुमुद्यतौ तदोऽसौ वरदां देवीं विष्णुमोहनकारिणीं विष्णुनेत्रगदां निद्रां तुष्टावकमलासनः मधुकैटभनाशाय प्रबोधाय हरेरपि गजाननप्रसादेन विष्णु हस्तात्तयोर्वधं ज्ञात्वा सम्यक् विचार्यैव चिन्ता हर्षसमन्वितः ब्रह्मोवाच स्वाहा स्वधारूपधरासुधात्वं मात्रार्थं मात्रस्वरूपिणी कर्त्री जहर्त्री जननी जनस्य सदो सदःशक्तिरसि त्वमेव श्रुतिस्वरा कालरात्रिरनादिनिधनाक्षपा जगन्मादा जगधात्री सृष्टिस्थित्यन्धकारिणी सावित्री च तथा सन्ध्या महामाया तृसाक्षुधा सर्वेषां वस्तुजातानां शक्तिस्त्वमसि पार्वति त्रैलोक्यकर्ता त्वन्नाधो दैत्यदानवसूदनः निद्रया व्याप्त व्याप्तलित्तौ सौ ज्ञानविज्ञानवान् हरिः जगदुत्पद्यते येन पाल्यते हीयतेऽपि च सोऽपि त्वयावताराणां सङ्कटे विनियोज्यते दुष्टात्मानौ मोहयैतौ त्वं दैत्यौ मधुकैडभौ हन्तुमे तौ दुराधर्षौ ज्ञानमस्य प्रदीयताम् अहमारातिथश्चाभ्यां पूर्वजन्मन्यतन्त्रितम् वरान् बहुविधान् प्रादामवद्भ्यौ ममतावभौ तयोरुच्चावचंशब्दा ततोऽहमसहम्बहु मामेव कन्दुकामौतौ स्तुतौ नानाविधैस्तवैः तथापि मध्वात्तौ न निवृत्तौ दुष्टभावदः प्रार्थये देवी विष्णु श्री दे विषु उपासना उपासनाखंडे देवी प्राथना नाम षोडशोध्याय ओ